ष्टमः सर्गः ततो नीलाम्बुदप्रख्यः प्रहस्तो नामराक्षसः राक्षसः अब्रवीत् प्राञ्जलिर्वाक्यम् शूरः सेनापतिस्तदा सर्वे दर्शयितुम् शक्याः किम् पुनर्मानवौरणे सर्वे प्रमत्ता विश्वस्ता वञ्चिता न हि मे जीवतो गच्छेज्जीवन्सवनगोचरः सर्वाम् सागरपर्यन्ताम् सशैलवनकाननां करोम् यवानराम् भूमिमाज्ञापयतु माम् भवान् रक्षाम् चैव विधास्यामि वानराद्रजनीचरा नागमिष्यति ते दुःखम् किञ्चिदात्मापराधजम् अब्रवीत्तु सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् अयम् परिभवो भूयः पुरस्यान्तः पुरस्य च श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम् अस्मिन्मुहूर्ते गत्वैको निवर्तिष्यामि वानरा प्रविष्टान् सागरम् भीममम्बरम् वारसातलम् ततो ब्रवीत्सु सङ्क्रुद्धो वज्रदम्ष्ट्रो महाबलः प्रगृह्य परिघम् घोरम् माम् स शोणितरूषितम् किम् नो हनूमता कृपणेन तपस्विना रामे तिष्ठति दुर्धर्षे सुग्रीवेऽपि अध्यरामं ससुग्रीवं अद्य रामम् परिघेण स आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनी इदम् ममा परम् वाक्यम् श्रृणुराजन्यदिच्छसि उपायकुशलो ह्येव जयेच्छत्रून तन्द्रितः कामरूपधरा शूरास्तु भीमा भीमदर्शनाः राक्षसा वा सहस्राणि राक्षसाधिपनिश्चिताः काकुत्स्थमुपसङ्गम्य बिभ्रतो मानुषम् वपुः सर्वे ह्य सम्भ्रमा भूत्वा प्रेषिता भरते भ्रात्रा तवयवीयसा सहि सेनाम् समुत्थाप्य ततो वयमितस्तूर्णम् शूलशक्तिगदाधराः चापबाणासि हस्ताश्च त्वरितास्तत्रयामहे आकाशे गणशस्थित्वा हत्वा ताम् हरिवाहिनीम् अवश्यमपनीतेन जहतामेव जीवितम् कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् अब्रवीत्परमक्रुद्धो रावणम् लोकरावणम् सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः अहमेको हनिष्यामि राघवम् सह लक्ष्मणम् सुग्रीवम् सह नोमन्तम् सर्वांश्चैवात्र वानरान् ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः क्रुद्धः परिलिहन् सृर्काम् जिह्वया वाक्यमब्रवीत् स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगतज्वराः एकोऽहम् भक्षयिष्यामि ताम् सर्वाम् हरिवाहिनीम् स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणी अहमेकोऽवधिष्यामि सुग्रीवम् सह लक्ष्मणम् च हनूम्त सर्वांशा वानराशे श्रीमद्राणे वाक आदि का्ये युद्धकांडे अष्ट सर्ग